श्रीहरये नमः अथ सप्तदशोऽध्यायः मैत्रेय उवाच एवं स भगवान् वैन्य क्यापि तु गुणकर्मभिः चिन्तयामास तान् कामये प्रतिभोज्याभिनन्द्य च ब्राह्मणप्रमुखान् वर्णान् भृत्यामात्यपुरोदशः पौराञ्जानपधान् श्रेणी प्रकृतिस्समपूजयेत् वितुर कस्माद्धारगोरूपं धरित्री बहुरूपिणी यां दुदोकपृतुस्तत्र को वत्सो दोहनं च किं प्रकृतया विषमा देवी कृता समागतम् तस्य मेद्यं हयं देव कस्य हेतो अपाहरत् सनत्कुमाराद्भगवतो ब्रह्मन् ब्रह्मविदुत्तमात् लब्ध्वा ज्ञानं स विज्ञानं राजर्षिकां गतः यश्चान्यदपि कृष्णश्च भवान् भगवतः प्रभोः श्रवः शुश्रवसः पुण्यं पूर्वदेहकथाश्रयं भक्ताय मेनुरक्ताय तवच च अदोक्षजस्य च वक्तुमर्हसि यो दुह्य वैन्यरूपेण गामि मा सूतौ चोदितो विदुरेणैवं वासुदेवकथां प्रति प्रशस्य प्रीतमनां प्रीतमना मैत्रेयः प्रत्यभाषत मैत्रेय उवाच यदाभिषिक्तप्रधुरङ्गविप्रैर् आमन्त्रितो जनतायाश्च पालः प्रजा निरन्नेर्चितिः पृष्टयेत्य शुक्षामदेहापदिमव्यवोचन् वयं राजं चाटरेणाभितप्त यदात्मिना कोटरस्तेन वृक्षाः शरण्यं यस्था तन्नो भवानीहतुरातवेन्नं क्षुधार्दितानां नरदेवदेव यावन्ननं क्ष्यामः भुज्झितोर्जा वार्तापतिस्त्वं किल लोकपालः मैत्रेयौ वाच निशम्यपरिदेवितं दीर्घं तद्यौ कुरु श्रेष्ठ निमित्तं सोऽन्वबध्यत इति व्यवसिधो बुद्ध्या प्रगृहीतः सरासनः सन्तदेविसिकं भूमे कृतस्त्रिपुरहायत प्रवेपमानाधरणी निशां योधायुतं शतम् गौ सत्यवदीता मृगीब मृगयुत्रोता तमन्वितुणी क्षण सरंधनुषिधा यलाये सा दिशो विदिशो देवी, रोदी सांतर तय धावन्ति तत्र तत्रैनं दर्शानोद्यधायुधं लोके न विन्दतॄणां वैन्यान् मृत्योरिव प्रजाः त्रस्ता तदा हृदयेन विधूयत उवाच महाभागं धर्मज्ञापन्नवत्सला त्राहि मामभिभूतानां पालेनेववस्थितो भवान् सत्वं जिगांसे कस्माद् दीनामकृतकिल्बिषाम् अहनिष्यत्कथं योषां धर्मज्ञ इति यो मतः प्रहरन्ति न वै त्रिषु कृधागस्वपि जन्तवः किमु तद्वद्विताराजन् करुणादीनवत्सलाः मा विपाट्य अजराम् नावं यत्र विश्वं प्रतिष्ठितम् आत्मानं च प्रजाश्चेम कथम् अम्बसि दास्यसिं पृतृर्वाचा वसुधे त्वाम् वदिष्यामि मश्चासनपराङ्मुखीं भागं बर्हिषिया वृन्ते न तनोचि च यवसं जक्ति अनुधिनं नैव दोक्तिवोदसं पयः तस्यामेवं हि दुष्टायां दण्डो नात्र न सस्यते त्वं कल्वोषधिबीजानि प्राष्टानि स्वयं भुवा न मुञ्चस्य आत्मरुद्धानि वामवज्ञायमं दधीः आर्तानां परिदेवितम् समयिष्यामि मद्भाणे भिन्नायास्तवमेदस पुमान् योषिदुद क्लीभ आत्मसंभावनोदमः भूतेषु निरनुक्रोशो नृपणां नीत्वा मायागां तिलशक्सरैः आत्मयोगबलेनेमां धारयिष्याम्यहं प्रजाह एवं मन्युमयी मूर्तिं कृतां तमिव बिव्रतं मही सञ्जातवे पतुः तरो वाच नमः परस्मै पुरुषाय मायया विन्यस्तनातन वे गुणात्मने नमः द्रव्यक्रियाकारकविप्रमोर्मये येनाकमात्मायतनं विनिर्मिता धात्रायतोऽयं गुणसर्गसङ्ग्रहः स एव मां कन्दुमुधायुतस्वराट् उपस्थितोऽन्यं शरणं कर्माश्रये ये दधाधौ स्वमाययात्माश्रयया वितर्कया तयैव सोऽयं किल गोप्तुमुद्यथ कथं नु मां धर्मपरो जिगांसति नूनं भदे समीहितं जनै तन्मायया दुर्जयया कृतात्मभिर् न लक्ष्यते यस्त्वकरोद कारयेद् योऽनेकयेकपरतस्य का ईश्वरः सर्गाति योस्यानुऋणद्दिशक्तिभेर्द्रव्यक्रियाकारकचेतनात्मभिः तस्मै समुन्नन्धनिरुद्धशक्तये नमः परस्मै पुरुषाय वेदसे स वैभवानात्मविनिर्मित्तं जगत् भूतेन्द्रियान्तकरणात्मकं विभो समस्ता भयिष्यन्न जमाम्रसातलात् आदि अभ्युजहारम्भस आधिसुकरः अपामुपस्तेमयिना व्यवस्थिता प्रजाभवानद्यरिरक्षिषु किल सवीरमूर्तिसमभूदराधरो यो मां पयस्युग्रसरोजिगांसी नूनं जनैरीहितं ईश्वराणाम् अस्मद्विदैस्तद्गुणसर्गमायया न ज्ञायते मोहितचित्तवर्त्मभि तेभ्यो नमो वीरयशस्करेभ्यः इति श्रीमद्भागवते महापुराणे चतुर्थस्कन्ते पृथुविजेय धरित्रीनिग्रहो नाम सप्तदशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुमहाराज के जय